अथर्वेदे पञ्चमाष्टके सप्तमोऽध्यायः ओस्रोवाचः प्रवदज्योतिरघ्राजाया एतद्दुह्रे मधुरोघमोधाः स वत्सम् क्रण्वन् गर्भमौषधीनाम् सद्यो धातो वृषभोरोहोरवीति यो वर्धन ओषधीनाञ यो अपां यो विश्वस्य जगतो देव ईशे सत्विधातु शरणम् शर्मयम् सत्रिवर्तु अस्मे शरीरुत्वद्भवति सूत उ त्वद्यथापशन्तन्वञ्चक्र एषः पितुः तेन पिता वर्धते तेन पुत्रः यस्मिन् यस्मिन्विश्वानि भुवनानि तस्थस्तिस्रोऽद्यावस्त्रेधा सस्रुरापाः त्रयः कोशास उपसेचनासोमध्वश्चोतन्त्यभितोऽविरक्षम् इदम् वचः पर्जन्या आयस्व राजे हृतो अस्त्वन्तरन्तजुजोषत् भजोभुवो अवृष्टयः सन्त्वस्मे सुपि पला ओषधेर्देवको ओपाः सरे एतोथा वृषभः शश्वतीनाम् तस्मिन्नात्मा जगतस्तस्थुषश्च तन्मरुतम् पा आतु शतशा आरदाय यूजम् पा आतस्वस्तिभिः सदा नः पर्जन्याय प्रगाय तदिवः स्पुत्राय मीळुषे स नोजवसमिच्छतो यो गर्भमौषधीनाम् पर्जन्यः पुरुषेणाम् तस्माभि यास्ये हविर्जुहोतामधुमत्तमम् इडा न संयतम् करत् संवत्सरम् शशयानाभ्राम् हणा व्रतचारिणाः वाचम् पर्जन्यजिन्विताम् प्रमण्डूका अबादिषुः दिव्या आपो अभियदे न माजन्द्रुतिन्न शुष्कम् सरसेषयानम् गवामह न मायुर्वत्सिने एनाम् मण्डूकानाम् वग्दुरत्रासमेति यदे एमेनाम् उशतो अभ्यवर्षे तृश्यावतः प्रावृष्यागतायाम् वःखरीकृत्या पितरन्न पुत्रो अन्यो अन्यमुपवदन्तमेति अन्यो अन्यमनुगृह्णात्येनोरपाम् प्रसर्गे यदमन्दिशाताम् मण्डूको यदभिविष्टः कनिष्कन्पृश्निः सम्पृङ्क्ते हरितेन वाचम् यते एषामन्यो अन्यस्य वाचम् साक्तस्ये एव वदति शिक्षमाणः एषाम् समृथे एवपर्वयत्सु वाचो आयुरेको अजमा आयुरेकः पृश्निरेको हरित एक एषा समानन्नामबिभ्रतो विरूपः पुरुत्रा वाचम्यपिषुर्वदन्तः ब्राह्मणा सो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः संवत्सरस्य तदहः परिष्ठयन्मन् लोकाः प्रावृषीणम् बभूव ब्राह्मणा सः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरिणम् अद्धर्यवोः घर्मिणस्य स्विदाना आविर्भवन्ति गुह्या न केचित् देवहितिञ्जुगुपुर्वादशस्य ऋतम् संवत्सरे प्रावृश्यागतायान्तप्ता घर्मा विसर्गम् गोमायुरदादजमाहायुरदात्कृष्णिरदाद्धरितो नोऽवसूनि गवाम् मण्डोकाददतः शतानि सहस्रसावे प्रतिरन्त आयुः उपप्लवतमण्डोकि वर्षमावदता दुरि मध्ये एक्रदस्य प्लवस्य निगृह्य चतुरः पदः इन्द्रासो मातपतम् रक्ष उब्जतन्यर्पयतम् वृषणातमोवृथाः पराशृणीतमचितोऽन्यो शतम् हतम् नुदेथान्निशिषीतमत्रिणाः इन्द्रासो मासमघशम् समं ध्या अघन्तपुरुजयस्तुतरुरग्निवामिव ब्रह्म द्विषे एक्रञ्जाते घोरचक्षसे द्वेषो धत्तमनभाजङ्कि इन्द्रा आसोमा दुष्कृतो ओभव्रे अन्तरनारम् भणे तमसि प्रविध्यतम् यथा नातः पुनरेकश्च नोदयत्तद्दामस्तु सहसेमन्युमच्छवाः इन्द्रा आसोमा वर्तयतम् दिवो बधम् संपृथिव्या अकशंसायतर्हणम् उत्तक्षतम् स्वर्या अम् पर्वजेभ्यो ये न इन्द्रासोमा वर्तयतम् दिवस्पर्यज्ञप्तेभिरयुवमश्महन्मभिः तपुर्वजेभिरजनेभिरत्रिणो निपर्शाने विध्यतञ्जन्तु निःस्वरम् इन्द्रासो मा परिभाम्भोतु विश्वत इयम् मतिः कक्ष्याश्वे एव ोत्रा अम्बरिहिरोमि मेधये मा ब्रह्माणि नृपते एव जिन्मतम् प्रतिस्मरेथायद्भिरेवैरिर्हतम् द्रुहो रक्षसो ओभङ्गुरावतः इन्द्रासो मा दुष्कृते मा सुगम् भोद्यो नः कदाचिदभिदासति द्रुहा यो मा पाके एनमनसाचरन्तमभिचष्टे अनृतेभिर्वचोभिः आप इव काशिना सङ्ग्रहीता असन्नस्वासत इन्द्रभक्ता एपा आकशम् संविहरन्त ए वैर्ये वा भद्रम् दोषयन्ति स्वधाभिः अहये वा प्रददा आतु सोम आवा आ दधातु यो नो रसन्दिप्सति पित्रो अग्नेयो अश्वा आनाञ्यो गवाञ्यस्तनूनाम् रिपुस्तेनस्ते यद्दभ्रमेतुनिषहीयतान्तन्वा आतना च परस्व अस्तु तन्वा आतना च तिस्रः पृथिवीरथो अस्तु विश्वा प्रतिशुष्यतु यशो अस्य देवायो नो दिवा दिप्सति यश्च नक्तम् सुविज्ञानञ्चिकितुषेतनायसच्चासच्चवचसेपस्पृधातेजोर्यत्सत्यञ्जतरदृजे यस्तरत्सोमोऽवधिहन्त्यासत् न वाकुसोमोऽजिनम् हिनोतिरक्षत्रियम् मिथुजाधारयन्तम् हन्तिरक्षो हन्त्या सद्वदन्तमुभावविन्द्रस्य प्रसितौषयातेर् यदि वाहमनृतदेव आसमोघम् वा देवाम् अप्यूहे अग्ने किमस्मभ्यम् जातवेदोहृणीषे द्रोघवाचस्ते निरृथम् सचन्ता अद्यामुरीय यदि यातु धानो अस्मि यदि वायुस्तरपपूरुषस्य अथा यायो मा मोघञ्यातुधानेत्याह यो माया तुञ्जातु धानेत्याह यो वा आरक्षाश्रुतिरस्मीत्याह इन्द्रस्तम् हन्तु महता वदे न विश्वस्य जन्तो रथमस्पदेष्ट प्रयाजिगा आदि खर्गले एव न क्लमद्रुहातम् वा अङ्गूहमाना पौराम् रक्षस उपब्दैः मितिष्ठद्धम् मरुतो भिक्ष्वी इच्छतगृभायत रक्षसः सम्पि नष्टन भयोजे भूत्वे पतयन्ति नक्तभिरुजे वारिपो ओदधिरे देवे अध्वरे प्रवर्तयति दिवो अश्मानमिन्द्रसोमशितम् मखवन्तम् शिशाधि प्राक्तादपाक्तादधरादुदक्तादभिज हि रक्षसः पर्वतेन एत उत्तेपतयम् चिष्मया तव इन्द्रम् लिप्सन्ति लिप्सबोदाभ्यम् शिशीते शक्रः पिशुनेभ्यो वदम् नूनम् सृजदशनी यातुमद्भ्याः इन्द्रो यातो अभेदुशक्रः परशुर्यथापनम् पात्रेऽवभिन्दन् सप एति रक्षसाः पुलोकयातुम् शुशुलोकयातुम् जहिष्वयातुमुत कोकयातुम् सुपर्णया आतुमुत गृध्रयातुम् दृषदेव प्रमृणरक्ष इन्द्र मा नो रक्षो अभिनड्यातुमापतामपोच्छतु पृथिवीनः पार्थिवार्तात् तम्भसोऽन्तरिक्षम् दिव्यार्तात्वस्मान् इन्द्रजहि पुमाम् सञ्जाधानमुतस्त्रियम् माययाशासदानाम् विग्रे एव सोमोरदेवारदन्तु मातेषन् सौर्यमुच्चरन्तम् प्रतिचक्ष्वभि चक्ष्वेन्द्रश्च सोमजागृतम् रक्षोभ्यो मधमस्य तमशनीया तुमध्याः माचिदन्यद्विशंसदा विश्वेश्वरविरूपाक्षविश्वरूप सदाशिव शरणम् भवभूतेश करुणाकरशङ्कर हर शम्भो महादेव विश्वेशामरवल्लभ शिवशङ्करसर्वात्मन्नीलकण्ठनमोऽस्तुते मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे अमृतेशाय सर्वाय महादेवाय ते नमः उग्रायोग्राघनाशाय भीमाय भयहारिणे ईशाय नमस्तुभ्यम् पशूनाम् पतये नमः दश सप्तजनामानि मण्डलान्तेषु जः पठेत् स शिवस्य पदम् महीयते नास्ति मृत्युभयम् तस्य यज्ञेशाच्युतगोविन्दमाधवानन्दकेशव कृष्णविष्णो हि श्रीकेशवासुदेव नमोऽस्तु ते कृष्णाय गोपिनाथाय चक्रिणे मुरवैरिणे ऋक्मिणीशाय गोपाय गोविन्दाय नमो नमः साक्षान्मूलप्रमाणाय विष्णोरमिततेजसे आद्याय सर्ववेदानाम् ऋग्वेदाय नमो नमः हरिहर शिवशङ्कर वामन वासुदेव विरामस्तावतु विश्वेश्वराय नमः हरिः ओम् श्रीगुरुभ्यो नमः हरिः ॐ माचिदन्यद्विषंसतसखा योमारिषण्यत इन्द्रमित् स्तोतावृषणंस च सुते मोहोरुक्था च शंसत अवक्रक्षिणम् ऋषभञ्यथाधुरङ्गान् नर्षणीसहम् विद्वेषणम् संवनो भयङ्करम् ब्रह्मिष्ठमुपयाविनम् यच्चिद्धित्वा जना इमे नाहवन्त ऊतये अस्माकम् ब्रह्मेदमिन्द्रभूतु ते हा विश्वा वर्धनम् वितर्तोर्यन्ते मघवन् वि उपक्रमस्व पुरुपमाभरवाजन्ये निष्ठमूतये महे च न त्वामद्रिमः परा शुल्काय देयाम् न सहस्राजनायुताय वज्रिभोनशताय शतामघ शता वस्याङ्ग्रासि मे पितुरुतभ्रातुरभुञ्जतः अदर्षियुध्मखजकृत्पुरन्दरप्रगा आयत्रा अगाशिषुः प्रास्मैगायत्रमर्चत वातुर्यः पुरन्दरः याभिः काण्मस्योपबर्हिरासदय्यासद्वज्रेभिनत्पुराः ये ते सन्दिदशग्विनश्यति नो ये सहस्रिणाः अश्वासो ये ते वृषणोरभुद्रुवस्ते कर्णस्तो आत्वा अद्य स भर्दुघाम् भुवेगा यत्र वेपसम् इन्द्रम् धेनुम् सुदुघामन्यामिष मुरुधा आरामरङ्कृतम् यत्तुदच्छोर एतशम् बङ्को वा तस्य पर्णिना वहत्कुत्समार्जुनेयम् शतक्रतोग्रन्थर्वमस्तृतम् यरुते चिदभिश्रिषः सन्धा आता सन्धिम् अघवासुरिष्कर्ता विहृतम् पुनः मा भो ओ मनिष्ट्या आ इवेन्द्रत्वतरणा इव दुरोषा आशो अमन्महि अमन्महीरनाशभो अनुग्रासश्च सकृत्सुते ए यदि स्तोमम् मम श्रवदस्माकमिन्द्रमिन्दवः तिरः पवित्रम् सर्वांस आशपो मन्दम् तु व्र्यावृथाः आत्वा अद्य सदस्तुतिम् वा तस्वक्षुरागहि उभस्तुतिर्मघो नाम् प्रत्वा आवत्त्वधा देवश्मि सुतिम् सोताहि सोमद्रिभिरेमे एनमप्सुधा आवत द्रव्या वस्त्रे इन्नरो भासयन्त इन्दरो निर्धुक्षन्वक्षणाभ्यः अधज्मो अथवा दिवो बृहतो रोचरादधि अयामर्धस्वतन्वा आगिराममाजाचा सुक्रतो प्रण इन्द्रायसुमतिन्तमम् सोमम् सोतावरे एण्यम् शर्क्र एणम् वीपयद्विश्वयाधियाहिन्वानन्न मात्वा सोमस्य कन्दया सदा याचम् अहङ्गिरा भूर्णिम् मृगन्नसवनेषु चुकृषङ्क ईशा आनन्दया आचिषत मदे एनेशितम् मदमुग्रमुग्रेण शवसा विश्वे एषान्तरुतारम् मदच्युतम् मदेहि श्मा ददा सेवा रेवार्या पुरुदेवो मर्ता स सुम्बतेतस्तुभते च रासते विश्वमूर्तो अरिष्टुतः हेन्द्रया हिमत्स्वचित्रेण देवराधसा सरोनप्रा आस्युतरं सपि एतिभिरासोमेभिरुदुस्थिरम् आत्वा आ सहस्रमाशतम् युक्तारथेहिरञ्जये ब्रह्म युजोहरय इन्द्रघेशिनोमहम् तु आत्वा रथे हिरण्यजे हरि मयूरसेऽर्प्या चितिपृष्ठा वहताम् मध्वो अन्धसो विवक्षणस्य भीतये पिभात्वा अस्य गर्वणः श्रुतस्य पूर्वपा इव परिष्कृतस्य रसिन इयमाश्रुतिश्चारुर्मदायपत्यते य एको अस्ति दंसना महाम् उग्रो अभिवृतैः गवत्स शिप्रेन स यो ओषदा गमद्धवन्न परिवर्जति त्वम्बुरम् चरिष्णम् वधैः शुष्णस्य सम्पिणक त्वम्भा अनुचरो अधद्भिता यदिन्द्रौ यो भुवाह मम त्वासुर उदिते मम मध्यन्दिने दिवः मम प्रपीते अपि शर्वरेव स वा आसो अवृत्सत स्तुहि स्तुहिते घाते मघोनाम् निन्दिताश्वः प्रपथे परभज्या मघस्य मेध्यातिथे आयदश्वान्वनन्वतः श्रद्धयाहं रथेरुहम् उत वामस्य वसुनश्चिकेततियो अस्ति याद्वः पशुः यरद्रामह्यम् मामहे सह त्वचा हिरण्यया एष विश्वा अन्यभ्यस्तु सौभगा स्वरद्रथः अथ प्रायो अगिरतिदासधन्यानासङ्गो अग्ने दशभिः सहस्रैः अधो क्षणोदध मह्यम् नृशन्तो नला इव सरसो निरतिष्ठन् अन्वस्य स्थोरन्ददृशे पुरस्तादनस्थ उरुरवरम्बमाणः सरस्वतीनार्यभिचक्ष्याः सुभद्रवर्यभोजनम् बिभर्षि इदम्बसो सुतमन्धः पिबासुपूर्णमुदरम् अनाआभयन्द्रनिमाते द्रुभिर्धूतः सुतो अश्नैरं यो वारैः परिपूतः अश्वो न निक्तो न देशो दन्तेयभै यथा गोभिः स्वादुमकर्म श्रीणन्ताः इन्द्रत्वास्मिन् समादे इन्द्र अमपा ओमपा एक इन्द्रः सुतपा विश्वायोः यम् शुक्रो न दुराशीर्णतृप्रा उरुजसम् अवस्पृण्वते सुहार्दम् गोभिर्यदे मन्ये अस्मन्मृगन्नौरा मृगयन्ते अभित्सरन्ति धेनुभिः त्रय इन्द्रस्य सोमा सुदासः सन्तु देवस्य स्वेक्षये सुपानाः त्रयः कोशासश्चोदन्ति तिस्रश्चम्बा समाने अधिभार्मन् शुचिरसि पुरनिष्ठाः क्षीरैर्मध्यत आशीर्तः नर्ध्नामन्दिष्ठः शूरस्य निमेद इन्द्रसोमास्तीव्रा अस्मे शुक्रा आशिरै याचन्ते ताम् आशिरं पुरोलाशमिन्द्रेवम् सोमम् श्रीणीः प्रेमन्तम् हित्वा शृणोमि हृत्सु भीतासो युध्यन्ते दुर्मदासो नसुराया ओ नसुरा धर्मनग्नादरन्ते रेवाङिद्रेवतस्तोता स्यात्पावतो मघो नाः प्रेदुहरिवश्रुतस्य उक्थम् च न शस्यमानमगो ररिराचिकेत नगायत्रङ्गीयमानम् मान इन्द्रपि यत्नवेमाशब्धते परादाः शिक्षा आशती पश्यते एभिः वयमुत्तातलिलर्था इन्द्रत्वायन्तः सखायः कण्वा उक्थेभिर्जरन्ते न हे मञ्जलापपनवज्रिन्नपसो न विष्टौ तवे दुस्तोमञ्चिकेत इच्छन्ति देवाः सुन्वन्त नः स्वप्नाय स्पृहयन्ति प्रमादमतन्द्राः ओषु प्रया आहि वाजेभिर्माहृणीथा अभ्या अस्मान महाङ् इव युवजानिः वोष्मा अद्य दुर्हणा आवान् सायङ्करधारे अस्मत् अश्रीर इव जामाता विद्माह्यस्य वीरस्य भोरिदावरेम् सुमतिम् ऋषुजातस्य मना हंसे च शतमूहूतेः ज्येष्ठे एनसोतरिन्द्राय सोमम् वीराय शक्राय भरापि भन्नव्या आय जो वेतिष्ठो अव्यथिष्वश्वा आवन्तम् जरितृभ्याः वायम् स्तोतृभ्यो गोमन्तम् पन्यम् पन्यमित्सोतार आधा आवतमद्या आय सोमम् लीरायशूरा आय पाता आवृत्रः सुतमाघा आगमन्नारे अस्मत् नियमते शतमूतिः हे हरे ब्रह्मजुजाशग्मा वक्षतः सखा आयम् गीर्भिः श्रुतम् गिर्वणसम् स्वादवः सो मा आया आहि शीता सो मा आया आहि शिप्रिन्दृषे ए स्तुतश्चया स्वावर्धन्ति महे राधसे नम्नाय इन्द्रकारिणम् ऋधन्ताः गिरश्चयास्ते ये गिर्वाः उक्ता चतुभ्यन्तानि सत्रादधिलेशवांसि देवे देश तु विकोर्मिर्वाजाङ्मेको वज्रहस्तः सनादमृक्तोदयते हन्ताः वृत्रम् दक्षिणेनेन्द्रः पुरो पुरुहूतः पुरु महान्मही भिष्यचेभिः यस्मिन् विश्वा आश्चर्षणय उत च्यौत्नाज्रया अंसि च अनुघेन्मन्दे मघोनाः एष एतानि च कारेन्द्रो विश्वा योतिषृण्डे वाजदाभा मघोनाम् प्रभर्तारथम् गव्यन्तमपाकाच्छिद्यमवति इनो वसुसहि वोल्ढा सनिताविप्रो विप्रो अर्वद्भिर्हन्ता वृत्रन्द्रविशूराः सत्यो विता विधन्तम् यजध्वैनम् प्रियमेधा इन्द्रम् सत्रा चामनसा योगोत्सोमैः सत्यमद्वा गाथश्रवसंसत्पतिम् श्रवस्कामम् पुरुत्मानम् कण्वा आसोगातवाजिनम् यरुते चिद्वास्पदेभ्योदात्सखादृभ्यश्च ये अस्मिन्काममश्लियन् इत्था देवम् दमद्रिवः काण्ड्वम् मेध्यातिथिम् मेषो भूतोऽभियन्नः शिक्षाः विभिन्दो अस्मै चत्वार्ययुताददत् अष्टापरः सहस्राः उत सुत्ये पयो वृथाः माकीरणस्य नत्या जयित्वाय मामहे पिबा सुतस्य रसिनो मत्स्वान इन्द्रगोमतः आपिर्नो बोधिसमाद्यो वृधे एस्मा अवन्तु तेधिजाः भूयामते सुमतौ वाजिनोऽभयम् मानस्तरभिमातये अस्माञ्चित्राभिरवतादभिष्टिभिरानः सुम्नेषु यामय इमा उत्त्वापुरूपसो गिरो वर्धम् तु या मम पावकवर्णाश्रुचयो वि पश्चितोऽभिस्तो मयीरनुषत अयम् इन्द्रमिद्देवता तज इन्द्रम् प्रयत्यध्वरे इन्द्रम् समीके वरिणो हवामः इन्द्रम् धनस्य सातये इन्द्रो ब्रन्धारोदसे पप्रथच्छव इन्द्रः सूर्यमरोचयत् इन्द्रे एहविश्वा भुवनानि ये मिल इन्द्रे एषुभानास इन्द्रवः अभित्ताः पूर्वपि एतय इन्द्रस्तोमेभिराजवाः समीचीनासविभवः समस्वरम् रुद्राकृणन्तपूर्वम् अस्येदिन्द्रो वावृधे वृष्ण्यम् शवोमदे सुतस्य विष्णवि अर्ध्यातमस्य महिमानभाजवोऽनुष्ठुवन्ति पूर्वथाः तत्त्वा आयामि सुवीर्यम् तद्ब्रह्म पूर्वचित्तये येनायतिभ्यो मृगवेदने हिते येन प्रस्कण्वमाविथ येना समुद्रमसृजो महीरपस्तदिन्द्रवृष्णि केशवाः सद्यः सो अस्य महिमानसन्नशेयम् क्षोणीरनुचक्रदे शग्धेन इन्द्रयत्त्वा आरयीयामि सुवीर्यम् शग्धिराजा आय प्रथमम् सिषा आसते शग्धि स्तोमाय पूर्व्य शग्धेनो अस्य यद्धपौरमाभि थिय इन्द्रशिषा शक्ध्ये तादृशमंश्यावगङ्गममिन्द्रप्रापस्वर्णरम् कन्नव्यो अदसीनाहन्तुमर्त्याः स्वर्गृणन्त आदशुः कदुस्तु भृतयन्त देवतरुषिः को विप्रवोहते कदाहवम् मघवन्निन्द्रसंवतः सत्राजितो धनसा अक्षितोतयो वा जयन्तो रथाः इव कण्वाः इव भृगवः सूर्याः इव विश्वविद्धेतमा नशुः इन्द्रम् स्तोमे ए बिर्मायन्त आयवः प्रियमे एधासो अस्वरन् युक्ष्वाहिकत्रहन्तमहरे इन्द्रपरावताः अर्वाचीनोमघवन् सोमपीतय उग्ररिष्पे विरागैः इमे हि ते एकारवो ओ विप्रा आसो मेधसा आतये सत्वन्नो मघवन्निन्द्रगिर्वणो भेनो न शृणुधेहवम् निरिन्द्रबृहतेभ्यो ओहृत्रन्दनुभ्यो अस्फुरः निरर्बुदस्य हृदयस्य माजिनो निःपर्वतस्य गा आजः निरग्नयो ओरुचिर्निरुसूर्यो निःसोम इन्द्रियो रसाः निरन्तरिक्षादधमो महामहिम् कृषेतरिन्द्रवंस्यम् यम् मे दुरिन्द्रोः मरुतः पाकस्था मा कौरजाणः विश्वेशान्त्वनाशोऽभिष्ठमुपे एव दिविधावमानम् रोहितम् मे पाकस्था मा सुधुरम् कक्ष्यप्रा अदायो विबोधनम् यस्मा अन्ये दशप्रतिधुरम् वहन्ति वह्मयः अस्तम्बयो न तु ग्र्यम् आत्मापितुस्तनोर्वास ओजोदा अभ्यञ्जनम् तुरियमिद्रोहितस्य पाकस्थानानम् भोजम् दातारमब्रवम् यदिन्द्रप्रागपाकुदन्यग्वाहूयसे नृभिः सिमा आपुरो नृषो ऊतो अस्या न वेसि कण्वा आसस्त्वा ब्रह्मभिः सोमवाहस इन्द्रा यथा आगौरो अपाकृतम् दृश्यन् नेत्यवेरिणम् आभित्ते नः प्रभित्ते तोयमागहि कण्वे एषु सुसतापि मन्दन् प्रचक्रे सहसासहो ओपभञ्जमन्युमोजसा विश्वे एत इन्द्रभृतनायवोजहोलिवृक्षा इव सहस्रे सहस्रेणेव सजते य वीयुधाय स्थाननुपस्तुतिम् पुत्रम् प्राहवर्गम् कृणुते सुवीर्ये एताश्नोति नम उक्तिभिः माभे एममाश्रमिष्मोऽग्रस्य सख्ये तव महत्ते वृष्णो अभिचक्ष्यम् कृतम् पश्ये एमतुर्वशंयदुम् सव्यामनुस्फिग्यम् वावसे वृषानदानो अस्य रोषति मग्धा संरक्ताः सारघेण धेन वस्तु य मे हि द्रवापि वा अश्वीरथेषु रूप इद्गोमान् इदिन्द्रते सखा श्वात्रभाजा वयसा सदा चन्द्रो याति दृश्यो नृश्यन्नमागरिमेघमानो मघवन् वो तिष्ठन् दधि शेषाः अध्वर्योद्रावया त्वम् सोममिन्द्रः पिपासति उपनूनम् युयुजे वृषणा हरे आच जगामवृत्रः स्वयञ्जित्समन्यते दाशुनिर्जनो यत्रा सोमस्य त्रम्बसि इदम् ते अन्नैयुज्यम् समुक्षितम् तस्येहि प्रद्रवापिबेष्ठाया आध्वर्यवः सोममिन्द्रा आयसोतन अधिब्रध्नस्याद्रजो विचक्षते सुन्वन्तो ओदाश्वरम् उपब्रध्नम् वाता वृषणा हरि इन्द्रमपसुरक्षतः अर्वाञ्चन्त्रा सप्तजोऽध्वरश्रियो वहन्तु स वनेदुपा प्रभूषणम् नृणीमहे युज्यायपुरुवसुम् सशक्रशिक्षपुरुहूतनो धिया तुजे राजे विमोचन सन्नः शिशीः भुरिजोरिवक्षुरम् रास्व राजो विमोचन त्वे तन्नः सुवेदमुश्रियम् वसुयन्तम् हिनोषिमर्त्यम् वेमित्त्वापोषम् निञ्जसेवेऽभिः स्तोतव आघृणे न तस्य वेम्यरणम् हि तद्वसोऽस्तुषे पज्राजसाम्नेः परागावोजव सङ्गच्चिदाघणे नित्यम् रेक्नोः अमर्त्य अस्माकम् पूषन्न विता शिवो भाजसातले स्थूलम् राधः गुरुङ्गस्य दिविष्टिषु राज्ञश्लेषस्य सुभगस्य रातिषु देभिः सातानि काण्स्य भाजिनः प्रियमे धैरभिद्युभिः षष्टिम् सहस्रानुर्मजामजे निर्योधानि गवामृषेः वृक्षाश्चिन्मे अभिविद्वे गाम् भजन्त मेहनाश्वम् भजन्त मेहना इति पञ्चमाष्टके सप्तमोऽध्यायः